अथर्वेदे पञ्चमाष्टके पञ्चमोऽध्यायः ओद्यस्य सूर्यब्रवो नागा उद्यन्मित्राय वरुणाय सत्यम् वयम् दे एवदिदेश्याव तव प्रियासो अर्यमन् गृणन्ताः एषस्य मित्रावरुणा दृढक्षाः उभे दोरेति सूर्यो विश्वस्य स्थातुर्जगतश्च गोपा ऋजुमर्ते सुरजिना तपश्यन् अयुक्तसप्त हरितः सधस्थाद्यायीमहन्ति सूर्यम् घृताजीः धामा आलिमित्रावरुणा युवाकुःसंयोथे वजनिमालिचष्टे उद्वाम् प्रक्षासो मधुमन्तो अस्थुरा सूर्यो अरुहच्छुक्रमर्णाः यस्मा आदित्या अध्वनो रदन्ति मित्रोऽयमावरुणः सजोषाः इमे चेतारो अनृतस्य भूरेन्मित्रोऽयमावरुणो हि सन्ति इमऋतस्य वावृधुर्दुरोणे षग्मासः पुत्रा अधितेरदब्धाः इमे मित्रो वरुणो दूढभासो चेतसञ्चिच्यतयन्ति दक्षैः भिक्रतुम् सुचेतसंवतम् तस्तिरश्चिरम् हः सुपथा नयन्ति इमे दिवो सो अचेतसं अचेतसम् नयन्ति चिन्नद्यो गाधमस्ति पारन्नो अस्य विष्पितस्य पर्षन् यद्गोपा वदति दुःशर्म भद्रम् मित्रो यच्छन्ति वरुणः सुदासेः तस्मिन्नातो कन्दलयम् दधाः नामाकर्म देवनन्तुरा सह अभवेदिम्भोत्राभिर्यजेतरिपः दे काश्चिद्वरुणधृतः सह परिद्वेषोऽभिर्यवावृणक्तुरुम् सुदासे वृषणा उ लोकम् स्वश्चिद्धिसमृतिक्ले येषामपीच्ये न सहसा सहन्ते युष्मध्यया विषणो रेजमाना दक्षस्य चिन्महिना मृळता नः यो ब्रह्मणेषु मतिमाजजा देवाजस्य साधु परमस्य रायः सीक्षन्तमन्युम् अघवा नो अर्य उरुक्षया यजरे सुधातु इयन्ते एव पुरोहितिर्युवभ्याम् यज्ञेषु मित्रावरुणावकारि विश्वानि दुर्गापि व्रतन्तिरो नो यूयम् पात स्वस्तिभिः सदा नः उद्वाञ्चक्षुर्वरुणसुप्रदे रेति सूर्यस्ततम्बान् अभियो विश्वा भुवनानि चष्ठे समन्युम् मध्येष्वाचिकेता प्रवाम् समित्रावरुणावृता वा विप्रो यस्य ब्रह्मा आणि सुक्रतु अवाआ आ यत्क्रत्वा न शरदः प्रणैथे प्रोरोर्मित्रावरुणा पृथिव्याः प्रतिवर्ष्पाद्बृहतः सुदानु स्पशो ओदधाथे ओषधीषु विक्षुध्यतो अलिमिषम् रक्षमाणा शंसा आमित्रस्य वरुणस्य धाम सुष्मो रोदसी मद्बधे महिता अयन्मा सा अयज्वनामवीराः प्रयज्ञमन्मा वृजनन्ति राते अमो राविश्वा वृषणाभिमावान्नया सुचरित्रम् ददृशेन य क्षमम् दृहस्सजन्ते अनृता जनानान्नवान्निन्यान्यचिते अभूवन् समुवाह्यज्ञम् महयन्नमोभिर्हुदेवाहम्मित्रावरुणा समाधाः प्रभाम् मन्मान् द्विजसेनवानि कृतानि ब्रह्मजुजु सन्निमानि यन्दे पुरोहितिर्युवभ्या यज्ञेषु मित्रावरुणावकारि विश्वानि दुर्गाभि प्रतन्तिरो नो यूयम् पात स्वस्तिभिः सदा नः समो दिवाददृशे लोचमानः कर्त्वा आकृतस्वकृतः कर्तृभिर्भूत् सूर्यप्रति पुरो रद्वा एभिः स्तोमे एभिरेतशेभिरेवैः प्रणो मित्राय वरुणाय वोचो रागसो अर्यम्णे अग्नये च विनस सहस्रम् शुरुधो रदन् श्रुतावाह नो मित्रो अग्निः यच्छन्तु चन्द्रा उपमन्नो अर्कमानः कामम् पू पुरन्तु स्तवानाः द्यावा भूमि अनितेऽत्रासीथान्नो देवाञ्जज्ञजनिमानरुश्वे माहेळे भोमवरुणस्य वायोर्मा मित्रस्य प्रियतमस्य धृणाम् प्रबाहवासि सृतम् जीवसेना नो गव्योर्तिमुक्षतम् घृतेन आ नो जनेः श्रवयत युवाना श्रुतम् मे एमित्रावरुणा हवेमा नो मित्रो वरुणो हर्यमानस्महे तोकायवनैवो दधन्तु सुगा नो विश्वाः सुपथाः आदिशन्तु योऽयम् पातस्वस्तिभिः सदा नः उद्वे चक्षुर्मित्रस्य वरुणस्य देवश्चर्मे वयः समविव्यक्तमांसि मुद्रेति प्रसविता जनानाम् महान् केतुरर्णवः सूर्यस्य सपानञ्चक्रम् वर्याविवृत्संयते तशो वहति धूर्षुयुक्तः बिभ्राजमान एष मे देवः च छन्दयः समानन्न प्रमिनातिधामा दिवो रुक्म उरुचक्षा उदे दूरे अर्थस्तर अर्थस्तरनिर्भ्राजमानः नूनञ्जनाः सूर्ये प्रसूता अयन्नर्था निकृपन्नपांसि यत्रा आचक्रुरमृता आगातुमस्मैष्ये नो नदीयन्नन्वे एति पाथाः प्रतिभांसुरौदिते विधे विदे मनमो नो मित्रो वरुणो अर्यवानस्मने तोकाय परिबोधन्तु सुगा नो विश्वाः सुपथान्तु योजम् वा तस्वस्तिभिः सदा नः निरीक्षयन्तारजसः पृथिव्याम् प्रभाम् घृतस्य निर्निजो ददीरन् हव्यन्नो मित्रोऽर्यपासुजा आतो राजा आसु क्षत्रो वरुणो जुषन्त आरा आजानामहरतस्य गोपा सिन्धुपते क्षत्रिया यातमर्वाक् इळा अन्नो मित्रावरुणोत वृष्टिमव दिव इन्द्रतञ्जीरदानो मित्रस्तन्नो वरुणो देवो अर्यः प्रसाधिष्ठेभिः पथिभिर्नयन्दो ्रमद्यथा आन आदरिः सुदास इषाम देवसह देववोपाह यो वार्तम् मनसा दक्षदेतमूर्धाम् देतिम् ग्रहमद्धारे च मुक्षेथाम् मित्रा वरुणा कृते न तारा आजाना सुक्षितेस्तर्पयेथाम् एष स्तोमो वरुण अविष्टन्धियो कृतम् पुरन्धीर्यूयम् पात स्वस्तिभिश्वदानः प्रतिभांसुरौदिते सूक्तैर्मित्रम् भुवे वरुणम् पूतदक्षम् ययोरसुर्या अमक्षितम् ज्येष्ठम् विश्वस्य यामन्नाशितादिगत्नो ता हि देवानामसुराता पर्यातानाः क्षितेः कलतमूर्जयन्तीः पश्याममित्रावरुणा वयम् वान्द्या वा जयत्रपीपयन्नहा च ता भूरिपाशापदृतस्य सेतो दुरत्येतो रिपभेमर्त्या मित्रावरुणा पथा वा मपो नना वा दुरितातरेम आ नो मित्रावरुणा हव्यजुष्टिम् हृतैर्गव्यो दिमुक्षतमिलाभिः प्रतिभावत्र परमाजनाय प्रणीतमुद्नो दिव्यस्य चारोः एष स्तोमो वरुणमित्र तुभ्यम् सोमः शुक्रो न वायवेयामि अभिष्टम् धियोजिघृतम् पुरम् धीर्यूयम् पात स्वस्तिभिः सदा नः प्रमित्रयोर्वरुणयोः स्तोमो न एतु शूष्याः नमः तु विजातयोः या धारयन्त सुदक्षा दक्षपितरा असुर्यायप्रमहसा तानस्तिपातरूपावरुणचरितॄणाम् मित्रसाधय तन्धियाः यदद्यसूरौदितेनागामित्रोऽयवा सुवातिसभिता भगाः सुप्रावीरस्तु सक्षयः प्रणुयामन् सुदानवः येनो अम्भो अतिपिप्रति उत स्वराजो अदितिरदग्धस्य उरतस्य ये महो राजा न ईशते ूर उदिते मित्रम् मित्रं वरुणम् वरुणं विषादसम् राजाहिरण्ययामतिनियमवृकाशवसे इयम् विप्रा मेधसादये तेऽस्यामदेव वरुणते मित्रसूरिभिः सह इषं स्वश्च धीमहि बहवः सूरचक्षसो ज्ञजिह्वा रतावृथाः त्रीणि ये शरदम् मा समादार्यक्तुम् क्षत्रम् मित्रो आनमाशत सर्गो अद्यमनामहे सूक्तैः सूर उदिते हृदोहते वरुणो मित्रोऽर्यमा मित्रो हृतस्य रथ्यः हृतावा आनरतजा आवृथो अघोरासो अनृतद्विषाः ेषाम्बः सुन्दे सुच्छर्दिष्ट मे नरस्या भजे च सूरजाः उदुत्यर्दर्शतम् वपुर्दिव एति प्रतिह्वरे यदिमाशुर्वहति दे देव एतसो विश्वस्मै चक्षषे अरम् विहरितोरथे तच्चक्षुर्देवहितम् शुक्रमुच्चरत् पश्येम शरदशतम् जीवेम शरदशतम् काव्येऽभिरदाभ्यायातम् वरुणद्युमद् मित्रश्च सोमपीतये दिवो धामभिर्वरुणमित्रश्चायातमद्रुहा पिबतम् सोम मातुजी आयातम् मित्रा वरुणाजुषाणा बाहुतिन्नरा पातम् सोममृता वृथा प्रतिभाम्रथम् नृपदे हविष्मता मनसा यज्ञेन यो वाहम् दोतो न धिष्ठावती गरच्छाः सूलम् न पितराः विभक्मि अशोच्छग्दिः समिधानो अस्मे उपो अदृश्रन्तमसश्चिदन्ताः अचेति हेतुर्षसः पुरस्ताच्छ्रिये दिवो दुहितुर्जायमानः अभिवाहन्नो नमश्विना सुहोता स्तोमै सि शक्तिना सत्या पूर्वीभिर्जातं वच्याअभिरर्वात्सर्विदा वसुमता रथेन अन्नो नूनमश्विना निवाकुरु हुवे यद्वाहं सुतेमाध्वे वसूयुः आवाहं वहन्तु स्थभिरासो अश्वाः पिबाथो अस्मे सुषुता मधूनि प्राचीमुदेवाश्विनाधियं मे मृध्राम् सातये कृतं वसूयुम् विश्वा अविष्टम् वाजः पुरन्ध्ये स्तानः शक्तम् शचीपते शची एभिः शची अविष्टन्ध्येष्वश्विनान आशु प्रजापद्रेतो अक्रयन्नो अस्तु आवाहन्थोकेतनयेतुजाना सुरत्नासो देववे एङ्गमेह एषस्य वा अम् पूर्वकत्वे एव सख्ये अस्मे अहे एणतामनसायातमर्वा गश्नन्ता आहव्यम् मानुषेषु विक्षु एकस्मिन् योगे पुरणासमाने परिभांस्तप्तस्रवतो रथो ओगात् न वा यन्ति शुभो देवयुक्ता एवान्धूरुषु तरणयो वहन्ति अतश्च तामघवद्भ्यो हि राजा राजामघधेयम् जुनन्ति प्रये बन्धुम् सोमृताःभिः स्थिरन्ते गव्याः पृञ्जन्तो अश्वाः मघानि नो मेऽहममाश्रुणतम् युवानाया सृष्टम् वर्तिरश्विनाविराहवत् धत्तम् रत्ना निजरतम् च सूर्यन्यूयम् पातस्वस्तिभिः सदा नः आशुभ्राया तमश्विनाश्वश्वागिरो दस्राजुषाणा युवाकोः अव्यानि च परिहृता वितन्नाः प्रभामन्धाहंसिमद्याहन्यस्थुररङ्गन्तम् हविशो वीतये मे तिरो अर्यो हवनानि श्रुतन्नाः प्रभाम् रथो मनो जवा इयत्तिरोरजांस्यश्विना श्रुतोः अस्मभ्यम् सौर्यावसो इयानः अयम् हयद्वाहम् देवया चित्रम् हयद्वाम्भोजनन्वस्तिन्यत्र ये महिष्पन्तम् युजोतम् यो वाह मोमानन्दधते प्रियः सन् उतत्यद्वाहम् युरते अश्विना भोच्यवानाय प्रतीत्यम् हृदे अधियद्गर्प इत ओतिधत्थः उतत्यम् हृद्युमश्विना सखा यो जो मध्ये जोर्दुरेरासः समुद्रे निरीम् परषतराः वायो वृकाय जिजसमानाय शक्तमुदश्रुतम् शयवे हूयमाना यावघ्यामपिन्वतमपो या नस्तर्यिच्छक्त्यश्विनाशजेभिः एषस्य कारुर्जरते सूक्तैरग्रे बुधा न उषसाहम् सुमन्मा विशालम् वर्धनघ्यापयोभिर्यूयम् पात स्वस्तिभिः सदा आभाम् रथो रोदसेवद्बधानो हिरण्यजोषविर्यात्वश्वैः घृतवर्तनिः पविभेरुचान इषाम् बोढ्लादृपदर्वाजिनीमान् सपप्रधानो अभिपञ्चभूमात्रिबन्धुरो मनसा याः तु युक्तः विषो येन गच्छतो दे भयन्तेः पुत्राः चिद्यामश्विनादधाना स्वाहा यथसा न मर्वाग्दस्रा निधिम् मधुमन्तम् पिबाधः पिबाम्रथो भद्रा आयातमानोऽन्ताम् दिवो बाधते वर्तनिभ्याम् युवोऽश्रियम् परियोषाः वृणीतसूरोः दुहिता परितज्ञायाम् यद्दे वयम् तमवथस्यतिभिः परिघ्रंस मो मनः वाम्बयोगात् यो हस्य वाहम् रथिरावस्त उस्रारथो युजानः परिजाति तेन न श्रं यो रुषसोऽष्टौ न्यश्विनावहतम् यज्ञे अस्मिन्नराः गौरेव विद्युतम् दृषाणास्माकमद्य स वनोपजातम् वरुत्राहि वाहम् मदिभिरहवन्दे मावाहमन्ये नियमन्दे वयन्ताः युवम् भुज्युमवविद्धम् समुद्र उरोह सुरर्णसो अश्रिधानैः ृभिरश्रमैरौ यथिद्धम् सनाभिरश्मिना पारयन्ता नो भेहमवा शृणुतम् युवानायाशिष्टम् वर्तिरश्विनाविरावत् धर्तम् रत्नाः निजरतम् च सूर्यन्यूयम् वाहतस्वस्तिभिः सदा नः आविश्ववाराश्विनागतम् न प्रतत्स्थानमवाचिवाम् पृथिव्याम् अश्वो न वाजेषु न पृष्ठो सिशक्तिसा वाहंसुमतिश्च निष्ठाता अपि घर्मो मनुषो दुरोडे यो वांसमुद्रान्सरितापि प्रत्येतग्वाचिह्नसुयुजाः युजानः या निष्ठानान्यश्विना तथा चे दिवो यह्ष्वोषधीषु भिक्षु निपर्वतस्य मूर्धनिषदन्ते सञ्जना यदाशु सेवहन्ता रिष्टन्दे वा ओषधीष्वत्सु यद्योग्या अष्टमै चे ऋषीणाम् पुरोणिरत्नादतौन्या अस्मे अनुपूर्वाणि चक्षतुर्युगानि शुश्रुवांसा आदिरश्विना पुरोण्यभिब्रह्माणि चक्षाथे ऋषीणाम् प्रतिप्रयातम् वरमाजनायास्मेवामस्तु सुमतिश्च निष्ठा यो वारम् यज्ञो नासत्या हविष्मान् कृतब्रह्मा समर्यभवाति उपप्रयातम् वरमावसिष्ठमिमा ब्रह्माण्यन्ते जुवभ्याः इयम् महेषा इयमश्विनागेरिमांसु वृत्तिम् कृषणा दुषेथा इमा ब्रह्माणि वयोऽन्यग्मन्यूयम् पातस्वस्तिभिः सदा नः अपस्वसुरुषसो न्यहेतेरिनक्ति कृष्णेररुषाय पन्थाम् अश्वाहामघागोमघावाम्भुभे मदिपानक्तम् शरुमस्मद्विजोतम् उपायाः तन्दाशुषे मर्त्यामश्विना वहन्त युयुतमस्मदनि राममीपादि माध्वेत्रासीथान्नः आवाम् रथमवमस्याम् द्युष्टौ सुम्नायवो वृषणो वर्तयन्तु स्योमगभस्तिमृतयुग्भिरश्वैराश्विना वसुमन्तम् वहेथाम् यो वाम् रथो ओ नृपते अस्ति गोढात्रिबन्धुरो वसुमाम् उस्रयामा आन एनाः सत्योपयातमभियद्दाहम् विश्वप्स्योदि युवन्त्यवानञ्जरसो मुमुक्तन्निपेदव ऊहथुराशुमश्वजा आहुशंसिथिरेधा आतमन्तः इयम् मनीषा इयमश्विनागी दिवांसुवृत्तिम् मृषणाजुषेथा इमा ब्रह्माणि वयोऽन्यग्मन्यूयम् पातस्वस्तिभिः सदा नः आ गोमता न सत्यारथेनाश्वा बता पुरुश्चन्द्रेण जातम् अभिभां विश्वा नियुतः सचिन्ते स्पार्हयाश्रिया तम्बा आशुभाना आ, आ, आ, दे आ नोः देवेऽभिरुपजातमर्वाक्सजोषसाना सत्यारथेन युवोऽर्हिनः सख्यापित्र्याडिसमानो बन्धुरुत तस्य वित्तम् उदु स्तो मा आसो अश्विनो रबुध्रञ्जामि ब्रह्माण्युषसश्च देवीः आविवा आसन्द्रोदसेधिष्ण्येमे अच्छावि प्रो नासत्या विभक्ति विचेदुच्छन्त्यश्विना उषासः प्रभाम् ब्रह्माणि कारवो भरन्ते ऊर्ध्वम् सविता देवो अश्रेद्बृहदग्रयः समिधा आचरन्ते आ अन्ना सत्या पुरस्तादाश्विनायातमधरादुदक्तात् आ विश्वतः पाञ्चजन्येन राजाहातस्वस्तिभिः सदा नः अता आरिश्मतमसस्पारमस्य प्रतिस्तो मन्देभयन्तो दधानाः पुरुदंसाः पुरुतमाः पुराजावत्याहवते अश्विनागीः न्युप्रियो मनुषः सा अश्नीतम् मधोः अश्विना उपाक आवाहम्बो विदधे प्रयस्वान् अहेमयज्ञम् पथा मुराणा इमां सुवृत्तिम् मृषणा दुषेधाम् दृष्टिवेव प्रेषितो वामबोधिप्रदिष्टो मयिर्जरमाणोऽवसिष्ठः उपत्या वह्नेः गमतो विशन्नो रक्षो हा आ पश्चातान्ना सत्या पुरस्तादाश्विना यातमधरा दुदत्तार आ विश्वतः पाञ्चजन्येन राजा यूयम् पातस्वस्तिभिः सदानः इमा उवान् निविष्टय अर्वाग्रथम् समानसा नियच्छतम् पिबतम् मधो आया आतमुपभूषतम् मध्वः पिबतमश्विना दुग्धम् पयो वृषणा येऽन्यावसो मानो मर्धिष्टमागतम् अश्वा आसो ये वाुपदाशुषो गृहम् गुलान्दीयन्ति बिभ्रतः मक्षो युभिर्नराभयेभिरश्विना दे अथाः हयन्तोः अश्विना वृक्षः स्रजन्तसूरजाः तायम् सतो मघवद्भ्यो ध्रुमञ्जश्छर्दिरस्मभ्यन्ना सत्या प्रजे यजुरवृकासोरथाः इव नृपाता रोजनाः नाम् उतस्य नशवसाशोषु पुन्नर उत क्षयन्ति सुक्षितिम् यू उषा आहावोदि विचारुतेनाः विष्कृण्वा नामहिमानमागात् अपद्रुहस्तमः वरजुष्टमा गिरस्तमापथ्याः अजीगः महेनोः अद्य सुताय बोध्युषोः महेसौभगाय सु प्रयन्ते चित्रम् रजी यष सन्दे यस्मे दे विवर्तेषु मानुश्रभस्युम् एतेत्ये भाणवो दर्शतायाश्चित्रा उषसोः अमृताः स आगोः जनजन्तो दैव्याः निवृतान्याः वृणन्तोः अन्तरिक्षाभ्यस्थो एषा स्यायुजाना पराकात् पञ्चक्षितेः परिसद्यो जिगाति अभिवश्यन्ते वयुना जनानाम् दिवो दुहिता पत्नी वाजिनी एव सूर्यस्य दोषाः चित्रामघाराज ईशेवसूनाम् ऋषिष्वता रलयन्ते मघोन्युषा उच्यते वह्निभिर्गृणाना प्रत्यद्युतानामरुषासो अश्वा चित्रा याति शुभ्रा विश्वपि सारथे न रथानम् विघते जना सत्या सत्येभिर्महति महद्भिर्देवी देवेभिर्यजता यजत्रैः रुदद्गृह्लादिदुश्रियाणाम् रतिगावुषसम् वा पशन्त नो नो गोवद्वीरवद्धेहि रत्नमुषो अश्वावत्पुरुभोजो अस्मे मानोः बर्हिः पुरुषता निरेकर्योयम् वास्तिभिः सदा नः उद ज्योतिरमृतम् विश्वजन्यम् विश्वानरः स पिता देवो अश्रेत कर्त्वाः देवानाहामजनिष्टचक्षुराभिरकर्भुवनम् विश्वमुषाः प्रभे पन्था आदेवजानाः अदृश्रन्नमर्थन्तो वसुभिरिष्कृता सह अभूद् एतरुषसः पुरस्ता प्रतीच्या गादधिहर्म्येभ्याः तानी दहानि बहुलान्या आसन्या प्राचीनमुदिता सूर्यस्य यतः परिचार इवाचरन्त्युषोदृक्षेण पुनर्यतीव त इद्देवानाम् सधमाद आसन्दतावानः कवयः पूर्व्यासाः गूढम् ज्योतिः पितरो अन्वविन्दन् सत्यमन्त्रा अजनयन्नुशासम् समान ऊर्वे अधिसङ्गतासः सञ्जानते नयतन्ते मिथस्ते ते देवानान्न मिनन्ति व्रतान्यमर्थन्तो वसुभिर्यादमानाः प्रतित्वा स्तोमयी रीडते वसिष्ठा गवान् नेत्रीवाजपत्नीन उच्चोषः सुजाते प्रथमादरः एषा नेत्रीराधसः सूनृता नामुषा उच्यन्तेभ्य देवैः स्मे दधा आनायोतस्वस्तिभिः सदाना उपो रुते युगतिर्नयोषापिष्टम् जीवम् वसुवन्ते चरायैः अभो दग्भिः समिधेमानुषा नाम कर्जो निर्बाधमानातमा हंसि उदस्थादृषद्वाती सुमश्व सुदृशीकसन्दर्गवा नेत्र्यरोचि देवा चक्षुःसुभगा वहन्ते श्वेतन्नयन्ते सुदृशी कमश्वम् उषादर्शि लक्ष्मिभिर्व्यक्ता चित्रामखा विश्वमनुप्रभूता अन्ति वामा दूरे अमित्रमुच्छोर्वीङ्गव्योतिमुपयम् कृधीनः यापयद्वेषः परावसूनि चोदय राधो गृणते मघोनि अस्मे श्रेष्ठेभिर्भानुभिर्विभाक्षुषो देवि प्रतिरन्ते नायुः इषञ्च नो दधते विश्ववा देवो मदश्वाः भद्रसवच्चराधाः यान्त्वादिवो दुहितरु सा स्मासुधारयि विश्वम् रहन्तम् योऽयम् वाहतस्वस्तिभिः सदा नः प्रतिकेतवः प्रथमा अदृश्रन्नर्ध्वा अस्या अञ्जयो विश्रयन्ते उषो अर्वाचाः बृहता रथे न ज्योतिष्मदाभावमस्मभ्यम् वक्षि प्रतिशे मग्निर्जरते समिद्धः प्रतिविप्राः सोमतिभिर्गृणन्ताः उषायाः जिज्योतिषाबाधमाना विश्रातमाम् सिदुरितापदेवी एता उत्याः प्रत्यदृश्रम् पुरस्ता ज्योतिर्यच्छन्ति विभाति विभातीः अजीजनसूर्यमग्निमपा नन्तमो अगातदुष्टम् अचेरि दिवो दुहिता मघो ने विश्वे पश्यन्ति ऋषम् विभाति आस्थाद्रथम् सुधयाः युज्यमाः नमाजमश्वाः स सुयुजो प्रतित्वाद्य सुमनसो बुधन्तास्माकासो मघवानो भयम् च इल्विलायधमुषसो विभातेर्योऽयम् बा आत स्वस्तिभिः सदानः योषा आवः पथ्याः जनानाम् पञ्चक्षितेर्मानुषेर्बोधयन्ते यञ्जते दिवो अन्तेष्वक्तोऽन्विशो न युक्ता उषसो यतन्ते सन्ते गावस्तमावर्तयन्ति ज्योतिर्यच्छन्ति सभितेव बाहु अभो दुषा इन्द्रतमा मघोऽन्यजी जनत्सुभिता यश्रवांसि विदिवो देवी दुहिता दधात्यङ्गिरस्तमा सुकृतेवसूनि तावदुषो राधोः अस्मभ्यं रास्व यावत् स्तोतृभ्यो अरदो जग्गुरुवृषभस्यारवेणविदृढस्य दुरो अद्रेरोर्णोः देवन्दे वं राधसे चोदयन् यस्मद्यक्षूता ईरयन्ति युच्छन्ते एनः स न ये धियोथा यूयम् पातस्वस्तिभिः सदा अबुध्रन् विवर्तयन्ते रजसे समन्ते आविष्कृण्ना निविश्वाः एषा स्यानम् यमायुदधाना गूभेदमो ज्योतिशोषा अबोधे अग्रहेति युवतिरः क्रयाणा प्राचिकि तत्सौर्यै यज्ञमग्निम् अश्वावतेर्गोमतेर्न उषासोः सदमुच्छन्तु भद्राः धृतम् दुहाना विश्वतः प्रदेता योऽयम् पात स्वस्तिभिः सदानः इति पञ्चमाष्टके पञ्चमोऽध्यायः